श्रीहरये नमः अथ अष्टादशोऽध्यायः श्रीशुक उवाच पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयेम् अग्निहोत्रम् पशुं सोमं चातुर्मास्यं महामघ सिद्धिर्भगस्य भार्याङ्घं महिमानं विभुं प्रबुम् आशिषं च कन्यां प्रसूत सुव्रताम् धातुः कुहूसिनीवालीं रागा सायं दर्शमतः प्रातः पूर्णमासं मनोक्रमत् अग्निं पूरिष्यानाधत्तः क्रियायां समनन्तरः षीवरुणस्यासीत् यस्यां जातो भृगः पुनः भवत् किल अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर् ऋषि रेतस्य शिशतुः कुम्भे उर्वश्यासन्निधौ धृतम् रेवत्या मित्र उत्सर्गम् अरिष्टम् पिप्पलम् व्यधात पौलोम्यामिन्द्र आदत्त त्रीन्पुत्राणि न श्रतम् तात तृतीयम् मीडुषम् प्रभुः उरुक्रमस्य देवस्य मायावामनरूपिणः कीर्तौ पत्न्यां मृगश्लोकस्तस्यासंसौभगायतः तत्कर्मगुणवीर्याणि कास्य पश्य महात्मनः पश्चाद्वक्षामहे अतः कश्याबायाता दैतेयान् कीर्तयामि ते यत्र भागवत श्रीमान् प्रह्लादो बलिरेव च दिते द्वावेव धायाधौ दैत्यधानव वन्दितो हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितो हिरण्यकशिपुर्भर्या गयाधुर्नाम धानवे जम्बस्य तनया दत्ता सुषुवे चतुर सुधान् संक्राधं प्राघनुः राधं प्रह्लादमेव च तत्स्वसा सिंहिका नाम राहुं विप्रचितो ग्रहीत शिरोहरत्यश्च हरिश्चक्रेण बिभतो मृतं संह्राधस्य कृतेर्भार्या सूतपञ्च जनं ततः राधस्य धमनेर्भार्या सुत वधापिं मिल्ब्वलं योगस्थायत् त्वदितये पे चे वा तापिं युल्बलः अनुह्रादस्य सूर्यायां बाष्कल्यो महिषस्तथा विरोचनस्तु ब्राह्रादेर्देव्यास्तस्या असानायां ततो भवत् तस्यानुभाव सुलोक्य पश्चात्ते बा आराध्य गिरीशं ले गणमुख्यता ये भगवा ना विपुरपालक मरुस्तरीशन बाधि त आसन्न व्रजावता इंद्रेण सामता राजोरुवाच कथं ते आसुरं भावमपोह्य औत्पत्तिकं गुरो इन्द्रेण प्रापिता सात्म्यं किं तत् साधुकृतं हितैः इमे ब्रह्मन् ऋषयो हि मया परिज्ञानाय भगवन्त नो व्याख्यातुम् अर्हसे सूतौ तत् विष्णुरातस्य सभातरायणेर्वचोनिशम्य अधृतम् अल्पमर्थवत् सभाजयन् सन्निरुब्धेन चेतसजाघातसत्त्रायण सर्वदर्शनः श्रीशुक हतपुत्रादितिश्चक्रभाष्णिग्राहेण विष्णुना मन्युना सोगदीप्तेन ज्वलन्ती पर्यचिन्तयत् कदानुभ्रातृहन्तारम् इन्द्रियाराममुल्बणम् अक्लिन्नहृदयं पापं घातयेद्वासये सुखं कृमिभस्म सञ्ज्ञासीत् भूधदृक् तत्कृते स्वार्थम् किं वेतनिरयो यतः आसा ध्रुवम् उन्नद्ध चेतसः मदशोषक इन्द्रस्य भूया भर्दुरा च शारासकृतप्रियं शुश्रुषया अनुरागेण प्रश्रयेण धनेन च भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः मनोजग्राहभावज्ञा सुस्मितापाङ्घवीक्षणैः एवं स्त्रिया झटीभूतो विद्वानपि विदग्धया भाडमित्याघ विवशो न तच्चित्रं हि योषिते विलोक्यैकान्तभूतानि भूतान्याधौ प्रजापतिः स्त्रियं चक्रे स्वदेहार्धं यया पुंसामतिर्हृता एवं शुश्रुचितस्तात भगवान् कश्चप परमप्रेतो दिदिमाहाभिनन्द्य च कश्यपो उवाच VARAM VARAYA VAMURU PRITASTEHA MANANDITE स्त्रिया भर्दरि सुप्रीते कामयिह सा पतिरेव हि नारीणां दैवतं परमं स्मृतं मानसः सर्वभूतानां वासुदेवः श्रियः पतिः स एव देवतालिङ्गैर्नामरूपविकल्पितैः इज्जते भगवान् पुम्भे स्त्रीभिश्च पतिरूपदृग तस्मात् पतिव्रतान् नार्यश्रेयस्कामासु मद्य मे यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् सुखम् त्वयार्चितो भद्रे ई दृग्भावेन भक्तितः तत्ते सम्भातये कामम् असतीनाम् सुदुर्लभम् तिरुवाच वरदो यति मे ब्रह्मन् पुत्रम् इन्द्रहणं वृणे अमृत्युमृतपुत्राहं येन मे सुतौ निशं विप्रो विमनाः अहो अधर्मसुमहानद्य मे अहो अद्येन्द्रिया रामो योषिन्मय्येहमाययया ीतचेतो कृपणः पतिष्ये नारगे ध्रुवं कोतिक्रमोनुवर्तन्त्यां स्वभावमिकयोषितः तिङ्मां पदाभूतं स्वार्ते यदहं त्वजितेन्द्रियः शरत्पद्मोत्सवं वक्त्रं वचस्य श्रवणामृतं हृदयं शुरधाराभं स्त्रीणां को न हि कश्चित् प्रियस्त्रीणाम् अञ्जसाम् स्वाशिषात्मना पतिम् पुत्रम् भ्रातरम् वा घ्नन्त्यर्थे घातयन्ति च प्रतिश्रुतम् दधामीति वचस्तन्न मृषा भवेत् वधम् नार्हति चेन्द्रोऽपि इति सञ्चिन्त्य भगवान् मारीच कुरु नन्दन उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् कश्यप उवाच पुत्रस्ते भविता भद्रे इन्द्रः देवबान्धवः संवत्सरं व्रतमितं यत्यज्ञो धारयिष्यसि तिधिरुवाच धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे यानि चेदनिषेधानि न व्रतं घ्नन्ति यानि तु कश्यपोवाच न हिंसाद्भूतजातानि न ना सपेन्नान् रथं वदेत् न चिन्त्यान्न करोमाणि न स्पृशेद्यधमङ्गळं न सुस्नायान्न कुप्येत न सम्भाषेत दुर्जनैः न वसिताधौधवास स्रजं च विद्रुतां क्वचित् नो चिष्टं च सामिषं मृषला हृदम् भुञ्जीदोधक्यया दृष्टं बिभे तज्जलिना त्वपः नो चिष्टा स्पृष्टसलिला सन्ध्यायामुक्तमोर्धजा अनर्चिता सहीतनापराङ्नान्यज्ञान च सन्ध्ययोः दौतवाषा शिशिर्नित्यं सर्वमङ्गलसंयुता पूजयेत् प्रातराशाद्भ्राक् गोभिभ्रा श्रियमश्च्युतं स स्त्रियो वीरवतिश्चार्चेत्स्रग्न्त बलिमण्डनैः पतिं चार्च्योपतिष्ठेत् द्यायेत् कोष्टगतं चतं सांवत्सरं पुंसवनं व्रतमेतत्त विप्लुतं धारयिष्यसि चेत्तुभ्यं सग्रहा भविता सुतः बाडमित्यभिप्रेत्यादधिराजन्मकामनाः <laughs> हा काश्यपं गर्भमादत्त व्रतं साञ्जोदता मातृष्वसु अभिप्रायं इन्द्र आज्ञायमानधा शुश्रूषणेनाश्रमास्तां दितिं पर्यचरत् नित्यं वनान् सुमनसः बलमूलसमित्कुशान् पत्रागुरं मृतोपश्च काले काल उपाहरत् जेग्मो मृग एव मृगाकृतिः नाद्यगश्च चिन्तां तीव्रां गतः शक्र केन मेषाचिवं त्विका ये गता लब्ध्वा तदन्त्रं शक्रो निद्रापकृतचेतसः दिते योगेसो योगे सो योगमायया शकर्त सप्तधा गर्भं वज्रेण कनकप्रभं सप्तदैकैकं मारोदीरिति पुनः ते तमूषु पाठ्यमाना सर्वे प्राञ्जलयो नृप नो जिहांसशिखिमिन्द्र भ्रातरो मरुतस्तव मा बैष्टभ्रातरो मह्यं यूयमित्याह कौशिकः अनन्यभावान् पार्षदान् आत्मनो मरुतां गणान् न ममारदितेर्गर्भ श्रीनिवासानुकम्पया बहुधा कुलिसक्षुण्णो द्रौण्यस्त्रेण यथा भवान् सकृदिष्ट्वाधिपुरुषं पुरुषो याति साम्यता संवत्सरं किञ्चिदूनं धित्या यत् हरिरर्चितः पञ्चाशत् देवास्ते मरुतो भवन् व्यभोह्यमातृदोषं ते हरिणा सोमपाकृताः दितिरुत्ताय ददृशे कुमारान् अनलप्रभान् इन्द्रेण सकितां देवे पर्यतुष्यत् अनिन्दित अतीन्द्रमाहता ताहम् आदित्यानाम्भयावहम् अपत्यमिच्छन्त्यचरं प्रथमेतच्च दुष्करम् एकसङ्कल्पितः पुत्र सप्त सप्ता भवन् कथं यदि ते विदितं पुत्र सत्यं कथय मामृषाम् इन्द्र उवाच अम्बतेऽहं व्यवसितम् गर्भम् अर्थबुद्धिर्न धर्मवित् कृतो मे सप्तधा गर्भ सप्तधानापिमम्रे। सप्तकुमारकाः केऽपि सैकैकसोवृघ्ना सप्तधा नापि ततस्तत्परमाश्चर्यं वीक्षयाद्यवसितं मया महापुरुषपूजाय सिद्धिकापि अनुषङ्गिणी आराधनं भगवत ईगमाननिराशिषः ये तु नेच्छन्त्यपि परं ते देवं स्वात्मानं जगदीश्वरं को वृणीते गुणस्पर्शं भुतश्यान्नरकेऽपि यत् तदिदं बालिसस्य महीयसे शन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो व्रतोऽितः श्रीशुक उवाच इन्द्रस्तयाभ्यनुज्ञाथ शुद्धभावेन तुष्टया मरुद्भिः सखतां प्रभुः एवं ते सर्वमाख्यातं यन्मां त्वं परिभ्रश्चसे मङ्गलं मरुतां जन्म किं भूयः कथयामि ते इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते मरुदुत्पत्तिकथनं नाम अष्टादशोऽध्यायः सर्वत्र जीवनस्मरणं। गोविंद गोविंद सदगुरुनाथ महाराज के जय